चाणक्यनेति अध्यायं 10. धनहीनो न हीनश्च धनिकः स सुनिश्चयः विद्यारत्नेन हीनो यः स हीनः सर्ववस्तुषु दृष्टिपूतं न्यस्येत्पादं वस्त्रपूदं पिबेज्जलं शास्त्रपूदम् वदेद्वाक्यः मनःपूतं समाचरेद सुखार्थी चेत्यजेद्विद्यां विद्यार्थी चेत्यजेत् सुखं सुखार्थिनः कुतो विद्या सुखं विद्यार्थिनः कुतः कवयः किम्न न भक्षन्ति वायसाः मद्यपा किं किम्न जल्पन्ति किं न कुर्वन्ति योषितः रङ्गं करोति राजानं राजानं रङ्गमेव च धनिनं निर्धनं चैव निर्धनं धनिनं विधिः ुग्धानां या च कशत्रुर्मूर्खानां बोधको रिपुः जारस्त्रीणां पदिशत्रुश्चौराणां चन्द्रमा रिपुः येषां न विद्यानतपोनदानं ज्ञानं न शीलां न, न गुणो न धमोकेु भी भारूता मनुष्येे मृगा अंधसार विनाशो न जायते मलयाचल संसर्गानाये यस्ति स्वयं प्रज्ञा शास्त्र किं लोचनाभ्यान दर्पण किं क्युर्जनम सज्जन कर्म न ही भूतले शातधा शातधाधद न श्रेष्ठमिन्द्रियं भवेद् आद्वेशात् भवेन्मृत्युः परद्वेषाद्धनक्षयः राजद्वेशात् भवेन्नाश्यो ब्रह्मद्वेषात् कुलक्षयः वरं वनं व्याघ्र गजेन्द्रसेविदं द्रुमालयम् पत्रफलाम्बुसेवनं तृणेषु शय्या शदजीर्णवल्कलं न बन्धुमध्ये धनहीनजीवनं विप्रो वृक्षस्तस्य मूलं च सन्ध्या वेदशाखा धर्मकर्माणि पत्रं तस्मान्मूलम् यत्नदो रक्षणीयं छिन्ने मूले नैव शापानपत्रम् माता च कमलादेवी पिता देवो जनार्दनः बान्धवा विष्णुभक्ताश्च स्वदेशो भुवनत्रयम् एकवृक्षसमारूढा नानावर्णा विषङ्गमाः प्रभादे दिक्षु दश्यसु यान्दिका तत्र वेदना बुद्धिर्यस्य बलं तस्य निर्बुद्धेश्च कुतो बलं वने सिंहो यदोन्मत्तः मशकेन निपातिदः का चिन्ता मम जीवने यदि हरिर्विश्वंभरो गीयते नो जननी जननीस्तन्यं कथं निर्ममे इत्यालोच्य मुहुर् मुहुर्यदुपदे लक्ष्मीपदे केवलं त्वत्पादाम्भुजसेवनेन सददम् कालो मया नीयते गीर्वाणवाणीषु विशिष्टबुद्धिस्तथापि भाष्यान्तरलोलुपोहम् यथा सुधायामरेषु सत्यां स्वगाङ्गनामधरासवेरुचिः अन्ना दशगुणं पिष्ठं पिष्टा दशगुणं पयः पयसोष्ठगुणं मां सां मां सा दशगुणं हृदं शोकेन रोगा वर्धन्ते पयसा वर्धते तनुः कृतेन वर्धते वीर्यम् मांसान् मांसं प्रवर्धते ॐ